śeṣaḥ yasmin े वाक्यमेतत्समस्तैर्वर्णैर्भाव्यम् स्वाश्रम प्राप्तचिह्नैः तेभ्य स्तुष्ये शङ्करः श्रीहरिर्वा प्रष्टव्यो वः श्रीगुरुः स्वैर्विनीतैः गायत्री चेत् सम्यगाता क्रमेण सा सञ्जप्ता कर्म शुद्ध्याद् शम्भुर्भास्करो विघ्नराजो या वा का वा देवतास्या विभूतिः सैकोपास्य वेदमार्गै घाणाम् गङ्गा शब्दो मानुषत्वैकहेतुः यस्यालब्ध्यै वैदिकाग्रेसराणाम् वञ्चे वेदैः संस्कृते जन्महेतुः मन्त्रैः किन्तैर्यैः प्रतीक्षेत देवी गायत् वासम् प्रवेष्टुम् द्विजेषु देवैः किन्तैरग्निना पुष्टिमद्भिस् तस्माद्भस्मोद्भूषिते सा निषेव्या दत्तम् भस्म श्रीत्रिपादाम् वयेतम् त्र्यङ्घ्रेरग्नेः शेषरूपम् स्वरूपम् तस्माद्भस्म प्रोच्यते भासनाच्च भूतिर्गायत्र्यम् वर्मस्यात्रिपुण्ड्रम् शैवो न्यो वा यां विना किम् vai ai विष्णुरुद्रा ब्रह्मत्वम् चेदाप्तु कामोऽस्युपास्व गायत्रीञ्चेल्लोककामोऽन्यदेवम् कामो ज्ञातः स्वीयपादः प्रवृत्या वादः को वा तृप्तिहीने प्रवृत्तिः बुद्धिः साक्षी बुद्धिगम्य जपादौ गायत्र्यर्थः सो न गो वेदसारः तत् ब्रह्मैव ब्रह्मतोपासकस्याप्येवम् तन्त्रे पुराणे जात्यश्वः किम् जातिमाप्तुम् सकामो गत्यभ्यासात् स्पष्टतामेति जातिः ब्रह्मत्वाप्तौ कः प्रयासो द्विजानाम् यद् चाष्टमेब्दे ब्रह्मत्वस्य ख्यापनार्थम् द ज्ञात्वा ब्रूयात् ब्रह्मतां स्वस्य विद्वाम् चेद्विश्वतत् समस्तम् भस्मोद्भूतम् भस्म सम्भासते च तस्माद् ब्रह्म प्राहुराद्यैर्वचोभिर् वेदास्तस्माद् भस्मलिङ्गम् द्विजाना